यश्च स द्विजमुख्येन राज्ञः शङ्खो निवेदितः प्रीत्या दत्तः धर्मराजाय धीमते तं सर्वे भ्रातरो भ्रात्रे ददु शङ्खं किरीटिने तं प्रत्यगृह्णाद् बिभत्सु स्तोयजं हेममालिनं चितं निष्कसहस्रेण भ्राजमानं स्वतेजसा रुचिरं दर्शनीयं च भूषितं विश्वकर्मणा अधारयन् च धर्मश्च तं नमस्य योन्नदाने नदति स ननादाधिकं तदा प्रणादाद् भूमिपास्तस्य पेतुर्हीना स्वतेजसा धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोष्टमः सत्त्वस्थाः शौर्यसम्पन्ना अन्योन्यप्रियकारिणः विसञ्ज्ञान् भूमिपान् दृष्ट्वा माञ्चते प्राहसंस्तदा ततः प्रहृष्टो बिभत्सुरददाद्धेमशृङ्गिणः शतान्यनडुहां पञ्च द्विजमुख्यायभारत सुमुखेन बलिर्मुख्यः प्रेषितो जातशत्रवे कुणिन्देन हिरण्यं च वासांसि विविधानि काश्मीरराजो मार्द्वीकम् शुद्धं च रसवं मधु बलिञ्च कृत्स्नमादाय पाण्डवायाभ्युपाहरत् यवनाहयानुपादाय पर्वतीयान् मनोजवान् आसनानि महार्हाणि कम्बलांश्च महाधनान् नवान् विचित्रान् सूक्ष्मांश्च परार्घ्यान् सुप्रदर्शनान् अन्यच्च विविधम् रत्नम् द्वारि वारिताः